गणेशपुराण उपासखंडम अध्या फोर्टी राजध किंक ब्रह्म वीक्ष्या सहस्रश कथ सृष्टिमकदाज्ञा प्राप्य गजानना भृगुरोवाच अभवद्गर्वसम्पन्नस्वात्मन्येवं विचारयेद वेत्मि शास्त्राणि वेदांश्च पुराणान्यागमानपि ज्ञानविज्ञानसम्पन्नशापानुग्रभशकृमान् ब्रह्माण्डानि च दृष्टानि सृष्टीनां रजनास्तथा इदानीं सृष्टिकरणे शक्य मे नैव किञ्चन इत्येवं गर्वसम्पन्ने सृष्ट्यर्थं कमलोद्भवे विघ्नाविधा भूपप्रादुरास्सन् सहस्रशः तं वेष्ठयित्वा ब्रह्माणं स्थिदाः परमदारुणः यथामस्ताः पुष्करसैक्षरसा मधुजालकं त्रिनेत्राः पञ्चहस्ताश्च कूपास्याः सप्तपाणयः त्र्यन्ध्रयः पञ्चतुण्डाश्च सप्ततुण्डाः षडङ्घ्रयः दशास्याः पञ्चपादाश्च तालदन्तावृगोदराः नानारूपामः सत्वात्सङ्ख्यातुं न ना च ते क्षमाः सकम्पे द्रुहिणस्तेषां नानारावान्निशम्यतान् केचित्तमुष्टिभिर्जघ्नो नेमुश्च नु नुवुः दोलयामासुरादराद चत्वार्यपि मुखान्यस्य जखसुस्तं तथा परे निनिन्दुश्च प्रशंसां चक्रुके जिन्सिषे विरे मोचयामासुरपरे बबन्धुरपरे पुनः मोचितुं पुनरप्यन्ये विचकर्षुरितस्तदः आलि आलिलिङ्गुश्च के तं केजिचुजुम्भुशिषुवत्परे अष्टश्मश्रुषुदं धृत्वा ननर्ते कोष्ठहस्तवान् एवं स परवान् ब्रह्म चिन्ताशोकसमन्वितः अखर्वं सृष्टिगर्वं तं तत्याजहृदि सङ्गतम् जगाममहदिं मूर्च्छां निराश स्वस्य जीवने मुहूर्तमात्रे दुगदे सस्मारमनसा विभुं प्रार्थयामास कारुण्यात् रुदन्निव गजाननं ब्रह्मोवाच न चायुष्यं स्वल्पं जनने सक्तमनसो नमे मे तत्त्वज्ञानं भवजलधितारं सुविमलं जनुर्भूमौ लब्ध्वा तव भजनदो यामि परमां कदा भुक्तिं मुक्रिं निरुपमसुखां वा किल त्वत्कडाक्षा मृदेनाकृतो भक्तस्यी दधिते विभो कियं लज्जातवैवास्थां न मे मृत्युश्चिरायुषः भृगुरुवाच इत्यसौ प्रार्थयन्नेव शुश्राव गगनेरिदां गिरं तपस्वेदि ततः प्रार्थयामासतां पुनः अन्तर्हिताश्च ते विघ्ना श्रुतायां नभसो गिरिनारूपा महावीर्यामुक्त्वा तं कमलासनं समुक्तश्चिन्तयामास पद्मयोनिर्महायशाः विना मन्त्रं विना स्थानं तप्स्ये तपो महद यि दिव्याकुलचित्तोऽसौ बभ्राम जलमध्यतः अनन्यमनसाध्यायन् गजाननमनामयम् मुकुटेन विराजन्तं मुक्ता रत्नयुजा अशुभं रक्तचन्दनलिप्ताङ्कं सिन्धूरारुणमस्तकम् मुक्ता दामलसत्कण्ठं सर्पयज्ञोपवीतिनम् अनर्क्यरत्नकडितबाहुभूषणभूषितं स्फुरन्मरकदभ्राजदङ्गुलीयकशोभिदं महाहिष्टिदबृहन्नाभिशोभिमहोदरम् विचित्ररत्नखचितकडिसूत्र विराजितं वस्त्रसमारदं। बालचन्द्रं लन्तशोभाराजत्करं परं एवं ध्यायदि तस्मिंस्तु पुनरेव नभोवचः पुदियाय वडं पश्य वडं पश्येदि सुन्दरं श्रुत्वेदि वचनं ब्रह्म पुनश्चिन्तामवापसः इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्म चिन्तावर्णनं नाम चतुर्दशोऽध्यायः ओ